छन्दाकस्य पदधाति वसवो वै छन्दागुं शिवशो नेवा वरुन्धे छन्दाकुं शि वै देवानाम् वामम् वशवो वाममेव पशोनवरुन्धयेतागुं हवे यज्ञसेनश्चैद्याविनश्चितिम् विदाञ्चकारत या वेशपशोनवरुन्धयते तामपदधाति पशोनैवावरुन्धे गायत्रे पुरश्चादिपदधाति ते यावे गायत्रे ते जेवमुखो भवन्ति मूर्धानेवै नुं समानादीन्द्रियं वै चिन्द्रियमेव धत्ते जगते नृपदधाति जागदा वैपशः पशूनेवावृन्धे नृष्टुभौपदाति प्राणावानुष्ठु प्राणानामुत्सृष्टे बृहते रुष्ण्यः पङ्क्तेरक्षरपङ्क्तेरुतिविषुरूपाणि छण्स्युपद विषु लोपा वै पशुवः पशुपश्चन्दागुं द्विविषुपादेव पशूनपरुन्धे विषुरूपमस्य गृहे दृश्यते यस्यैता उपधीयन्ते यौ चैना एवं वेदादिच्छन्द समुपदधान्दा वै सर्वानिच्छन्दां सर्वेऽभिदेवै छन्दाभिश्चिमुदेव स्मवादेशा छन्दसां यददिच्छन्दा यददिच्छन्द समुपदधा दिवस्मै वैमगुं समानाना उपदधादिपः त्यजमानः प्रतिष्ठत्यये वै देवता यत्सयुजो नोपदभ्या देवता अस्याग्निम् वृञ्जेरणसयुज उपदधात्मनैवेन कुंसयुजं चेनाग्निनाथो यथा पुरुषस्नावभिः सन्तत एवमेवैताभिरग्निः सन्ततोग्निना वै देवाः सुवर्गं लोकमायन्ता अमोः कृत्तिका अभवनयस्यै उपधीयन्ते सुवर्गमेव लोकमेधिगच्छति प्रकाशञ्चित्रमेव भवति मण्डलेष्टका उपदधातिमे वै लोकामण्डलेष्टका इमे खलु वै लोका देव पुरा देव पुरा एव प्रविशति नार्तिमार्चत्यग्ना विश्वज्योतिषमुपधातिमाने वैताभिर्लोकान् ज्योतिष्पदः कुरुतेऽो युजमानस्य तार्थदेता वै देवतासुवर्ग्यास्तान्मारभ्य सुवर्गम् लोकमेते वृष्टिसनेरुपदधाति वृष्टिमेवावरुन्धे कथोपदध्यादे च मृतम् वर्षे पर तनुपरिहारकम् साधयति तस्मात् सर्वानथो न वर्षति पुलोपातैत्याहैतद्वै वृष्ट्येरूपकम् रूपेणैव वृष्टिमवरुन्धे संयाने सर्वैदेवामिमान् लोकान् समयस्तत्संयाने रागुम् यत्संज्ञानेरुपदधादयथा ेवमेवैताभिर्यमान् लोकान्संज्ञाति प्रवोर्यच्छानेर्यच्छानेरुपदधाति प्रलवमेवैतमग्नयमुपदधा हृदयस्यैतासोपहितास्वापोऽगम् हरन्त हृददेवास्याग्रिरादित्यैकापदधात्यादित्यावाहेतम्भो ये प्रजनदन्ते योमम्भो न प्राप्नोत्यादित्या एव एतस्याधित्यो रुचमाधत्तेयोगृञ्चित्वा न रोचते यदाधित्ये प्र उपदधा देवाष्कृत्य यथासौ देवा नागम् रोचत एवमेवैष मनुष्या नागम् रोचते प्रदा उपदधा चेतद्वाज्ञाप्रियन् ैवैसानुपरिहारं साशोदा अपश्यता उपाधत्तताभिर्वैशेष पुरुषो पुरुषस्तस्मिन् यशोदधाति देवा सुस्यं यत्ता आसम् कनीयागुम् स देवा आसम् भो यागुम् स सुदेवा एता इष्टका अपश्यन्ता उपाद्रूयः देव भूयागुम् स भवन् वनस्पतिभिलोषधे दर्वलिवस्तुसे देवालयन् प्राचेत प्राचेन् दिशमलयन्नोद्वासेत्यमोमजयन्नन्तरिक्षसदस्यन्तरिक्षय सेदे देवा भवान् परा सुरायस्यैतानेव आयुष्यायुपुरधात्यायुरेवास्यन्दधात्यग्नेयत्रे परगुं हृन्नामेत्याहैतद्वाग्ने प्रियं धाम प्रियमेवास्य धामपाप्नो हृतगं रभावयेत्याहव्यै पाञ्चजन्येष्वग्त्याहैष वा अग्नः पाञ्चजन्यायः पञ्चजिकस्तस्मादेवमाहर्तव्या उपद ेतद्वा ऋतोनाम् प्रियन्धाम य धृतव्या ऋतोनामेव प्रियन्धा प्रजापतेनक्षश्व यत्तत्परापदत्तदश्वो भवद्यदश्वयत्तदश्वस्याश्वतन्त्रेवा अश्वमेधेनैव प्रत्यगुरेध वै प्रजापतिम् सर्वम् करोति याश्वमेधेन यजगे सर्वगेव भवति सर्वस्य वा एषा प्रायश्चित्ति सर्वस्य फेनजगम् सर्वम् वायेतेन पा मानम् देवा अदरन्नपि वादेतेन ब्रह्महत्यामदरन् सर्वम् पापानन्तरति दधि ब्रह्महत्याञश्वमेधेन यते यौतेन एवम् वेदोत्तरम् वैतत्प्रजापते रक्षस्व यत्तस्मादश्वस्योत्तरतोपद्यन्तितोशूनाम् वैतसः कटा भवत्युप्सुजोर्वा स्वाप्सुजो वेदसस्वगेवैदञो प्रतिष्ठा वेदेतश्चोमस्तोमो भवति सरड्ढवा श्वस्य सङ्ख्या बृहत्तद्देवाश्च दृष्टो मेनैव प्रत्यगुरुर्यच्च दृष्टोम स्तोमो भवत्यश्वस्य गर्भया ओ संयत्तासन्ते न विजयन्द्रगेता इन्द्रस्तनोरपश्यत्ता भुपाधत्तताभिर्वैश तनुवमिन्द्रियम् वैर्यमात्मन्नभत् तो देवाभवन् परासुरायिलीन्द्र तनुरपदधादि तनुवमेवताभिरिन्द्रियं वैर्यतमानात्मन् भत्ते सोसेन्द्रमेवाज्ञं सदनञ्चिनते भवत्यात्मना परास्यभ्या भवति यज्ञो ेवेभ्योपान्तोरपश्यन्ता उपादताभिर्वैते यज्ञमवारुन्ध तैर्यज्ञतनुरुपदसारि यज्ञमेवताभिर्यजमानावरुन्धे त्रयस्त्रिमुं सदमुपदसादि त्र्यस्त्रिमुं सद्वै देवता देवता केवावरुन्धेऽथोऽत्मानमेवाज्ञं सदनञ्च देशात्मामुष्टृन्दके भवति वैदज्योतिष्पतिरुपदधा रिज्योतिरेवास्मिन् दधा एताभिर्वाग्निश्चितोज्ज्वलदिताभिरेवैरं समिन्ध ते पुंशि गुरुतेषु वर्गस्य लोकस्यानुक्षात्ते लो यत् सर्गस्पृष्टा उपदध्या दृष्टे लोकमपि तद्ध्यातवर्षकः पर्जन्यस्यात सर्गस्पृष्टा एव लोकम् करोति वर्षकः पर्जन्यो प्राचेस्तस्मात् प्राचीनानि च प्रतीचीनानि अहं <susurra> पृथव्या उपदधात् पृथूनाम् प्रत्यै द्वन्द्वमुपदधाति तस्माद्वन्द्वमृतबोधते भवा एषा मध्यमाचितिरन्तलक्ष्मि भवा एषा द्वन्द्वमन्यासिषोपदधाति तदश्रोमध्ये धृत्या अन्तःश्रेषणम् वा येताश्चिति ना यदृर्थव्या ऋतुव्या उपदधाति निश्चयोनिवेवाचः विश्वामित्रो दधिया एवं वै दधिष्ठायै प्रतिष्ठति पञ्चपूर्वाश्चित्त भवन्ती चिदं चतुष्वेव संवत्सरे प्रतिष्ठत्येता वा अधिपत्रे ैर्नामेष्टकाय श्रेता उपधीयन्तेऽधिपतिरेव्याय देवताभ्येवैं देवताभ्यावृष्टरिता जगात्रिपाक्षत्यङ्गिरथस्वर्गं लोकं यन्तो यज्ञस्य निष्कृत्या प्रत्योहन्तरण्यमभवत्यभिरण्यशल्कैः प्रोक्षति यज्ञस्य निष्कृत्या अतोभयमेव स्मेकरोकम् समर्पयत्यतोस्रवथा प्रोक्षदि सहस्रः प्रजापतिः प्रजापतेलाप्या इमामे अग्नयिष्टका धेनवः सन्तीत्याह धेनो देवीणा कुरु देता येन का मधुघामुद्रामुष्टुम् उपतिष्ठन्ते। रुद्रायेश्च केतरिः जातोस्य यथा वत्सो जातस्तनम् प्रेक्षत्येवम् वा एष केतरिः भागधेयम् प्रेक्षति तस्मै यदाहुदन्न यजमानम् अध्याये शतरुद्रियञ्जुतिभागधेय दैव शमयतिनाद्भर्यन्न यजमानो यद्ग्राम्यानाम् वसूनाम् अयसाजुभूयात् ये जदारण्यानामारण्यान् जलय वाग्वा वाजुयाग्धुवयवाग्णग्राम्यान् पशोन् हिरस्ति नारण्याहुतिर्वे जक्तिलाश्च स्वर्गम् लोकयन्तो जाया घर्मम् प्राशिञ्चन् शा शोचन्ते मनम् पराजिहेत ओर्कर्कस्या समर्कपर्णेन जुहो दृशयो नित्वायो सङ्कुष्ठञ्जुहो तेजाविद्रस्य दिक्स्वायामेव दिशुरुद्रन्निरपदयते धरमायामिष्टकायाम् जुहोत्यन्त एव रुद्रन्निरपतयते त्रेधा विभक्तञ्जुहो धित्रै गिमे लोकायुवानेव लोकान् समावधेर्यान् करोति यत्र ग्रेजुहोद्यथ यत्यथे यदित्र गिमे लोकायैरल्लोके भ्यः शमयति षट् सम्पद्यन्ते षट् परिक्रामं चारिणुं रुद्रां कुर्यात् खल्वारिक्राममेव शमयत्रेतावे देवतासुवर्ग्याय उत्तमाय आयधमानं ेवेन किं सुवर्गम् लोकम् गमयधियम् दृश्य तस्य शङ्करेव शोलान्यस्य जः प्रथमः पशुरभितिष्ठति तथाते स्मन्नार्जमिति परिषिञ्जति मार्जयत्येवै नमथो दर्पयत्येव सेमन् धृत्वा क्षुध्यन्न सो जन्ममुष्मिन्लाक उपतिष्ठते दुर्गते प्रजया वसुभर्यन्धत्त मरुदस्नागित्याहानम् भावोर्गन्नम् मरुतोन्नमेवावरुन्धेष्मग्स्थे क्षुधमुन्ते शुगुच्छ द्वे तमस्य क्षुधा ऋपरिषिध्ये शुरधि प्रापतेश्वरो वेतगं सुताण्डोकेन विकर्षत्येतमेवष्टाभिर्विकर्षत्यष्टाक्षरागायत्रे गायत्रस्य पावकवतेभिरन्नं वै पावकां शमयति मृत्यु कृष्णादिनङ्कार मृत्योरन्तर्धक्तेऽन्तरन्नाध्यादित्याहुरन्यामुपमुञ्चते मृत्योर्धनात्यमस्ते हरसे शोचलित्या नमस्कृत्य शिवसीयागुं समुपचरन्ते अस्वत्थवन्त यमेव द्वेष्टितमस्तृचार्य परिपालक अस्मभ्यगम् शिवो भवेत् परिपालकोऽन्नमेवावरुन्धे द्वाभ्यामसि क्रामधि प्रतिष्ठित्वा अव सर्वदेभ्याकुम् शान्त्ये व्याघारयति पङ्काहुत्यायज्ञमानपदेक्षया व्याघारयति तस्मादक्षया पदमाङ्गानि प्रहरन्ते प्रतिष्ठित्य यद्वषत्तुर्या जातयामास्य वषत्कारस्याद्यन्नवषट्तुल्याद्रक्षागम् स यज्ञकम् हन्यर्वणेत्याह पराक्षमषत्कार दिनास्य जातयामावषत्कार भवति न यज्ञकम् रक्षाकम् सिभ्रन्थे हुताधोवान् ुतादोन्येतानग् देव भयान् प्रीणादि ये गमेवैना द्वे प्रजया वसुभिरुध्य देयोञ्चमानलायित्याह प्राणानेवात्मन् भक्ते वर्चोदावरिबोदायित्याह प्रजावेवर्चः पदवोरि धत्त इन्द्रो मृत्रमहन्त्रम् मृत्रिधागेतायेणेकवदाहुदितामजुहान् तेन भागधेयेन प्रेतश्रोणशधा मुत्रस्य भोगा नेश्वरमणेन पापन निरमुच्येणैकवदाहुदिं जुह त्यग्निरेवास्यानीकवान् तेन भागधेयेन प्रेत पाप्ननुविदह दिवेश्वकर्मणेन पाप्च्यते अयञ्चामलेत चिरम् पाप्मनो निर्मोच्यते चेकैकन्दस्य जिहूयात् चिरमेव पाप्मनो निर्मोच्यते अयम् तामलेत ताज् पाप्मना निर्मोच्यते सर्वाणि तस्यानुदृत्यजुहूयात् तादृशेव पाप्मना निर्मोच्यते स खलु नान्यो लिनानैव सूत्रया था प्रतिषिने उदयनमुत्तरा नये समिधा दधाति यथा जनयतेस्रित्रिवद्वाने वास्तस्मै भागतेऽयङ्करो चौदुम्बरे भवन्त्योर्ग्वामुदुम्बरपूर्जमेवा स्वापि तथा त्रि कृत्वा विश्वे देवा प्राणाविश्वे देवा प्राणेदेवैनमुद्यक्षते भरन्तु यस्मा ित्तायोग्यक्षं समर्थयति पञ्च दिशो देवे यज्ञमवन्तु देवेरित्या हरिशोक्यक्षपते पामतिं दुर्म्याह रक्षसामपहत्यै रागस्पोटयज्ञपतिमा भजन्ते रीत्याः पशवो वै रागस्पोटः पशो नैवावृन्धे षड् हरि षड् हरिके पुरस्तादित्याः प्रसोक्ते ततः पावकामित्यां मे पावकोन्न मेवा वरुन्धे देवासुधायत्तासन्ते देवा एतदप्रतिरथमपश्यन्ते न प्रतिरथस्या भिलयक्षराभिराग्याजेमो लोको विधृता भनय लोकयोर्विध्यासोदसाक्षराभिरान्याज्यवान्नाद्य प्रजतिष्ठच्छ सति मवा अन्तरिक्षमन्तरिक्षमिवाग्ने स्वानन्नि तथा सत्त्वाय द्वाभ्यां े पृष्ठन्नमेवावरुन्धे चतुर्भिन्दान्दोभिदेवे विश्वा अपि सन्नित्याहृथिमेवोपावत्तवादामित्याहां वे वाजोऽमेवावरुन्धे नैव क्षदित्याः प्रजा मे पशवः सुन्नम् प्रजामेव पशूनात्मम् धत्ते यक्षदग्निर्देवो देवायुमादवक्षदित्याः स्वकाजस्य माप्रथमेण ग्राभेणोरग्रभेदित्याग्राभयषणिम् वाजन्यग्राभ ब्रह्मणे वात्मानमुद्गृह्णाति ब्रह्मणा भ्रादुर्यगृह्णाति प्रादेमनप्रदेशं प्रेषि विद्वानित्याहदेव लोकमेवेतयो वर्तते क्रमध्वमग्निनागमित्याहे मानेवेतया लोकान् क्रमदेव सर्याहमुदन्तरि क्षमारुहमित्याहे मानेवेतया लोकान् समारोहति सुवर्यन्दो नायित्याह सुवर्गमेवेतया लोकमेत्यज्ञे प्रेहि प्रथमो देवयलामित्याहोभयेष्वेवे चक्षुर्दशादि पञ्चभिरधि प्रामलिन्तो यज्ञावानेव यज्ञस्तेनवाहप्रत्याहस्राहस्रः प्रजापतिः प्रजापते रास्मै देवत्याः पूर्णामौदुम्बदेकस्वयमा भ्यसादयति त्रैवाज्ञं प्रतिष्ठाङ्गमयति प्रेद्वार्ग्ने पुरो नौदुम्बरे मासोर्मेयं न कामप्रेतयासुदानागुशर्वागस्त्र ेदक्षदग्नाभ्यायप्रहर निष्कृत्यां विधमते परमे जन्मन्नमेकं गते मातसाधिभाेतां सितुर्वरेण्यस्य चित्रा विशिषमेमये शान्त्याग्निर्वाहवाग्निशितं गृहे स पितुर्वरेण्यस्य चित्रामित्याहैष ित्वा प्राणि प्रेणादि पूर्णयाजहोदि पूर्णैव प्रजापथ प्रजापथय रातेन्यो नयाजहोदिन्यो नाद्य प्रजापति प्रजापा भ्य निदायसौ न प्राविषर्जग्मनसाद्रेवे नवरुन्धे रद्धा पुरस्ताद्यो होत्याज्यो बलिष्टात्यजश्चैवाश्वानिन्द्रियञ्च समेत्ये तथाधिद्वादशकपालो वैश्वानरभवधिद्वारसमासाः संवत्सरा गर्वेश्वानरः साक्षादेव वैश्वा नरमवरुन्धे य प्रयाज नो यादाङ्ग्याद्विस्तिसा यज्ञस्य दर्विहोमं करोस्य प्रतिष्ठित्यै रायं वै वै एश्वानरोविन्मरुतो वैश्वानरघुं हृत्वा मारुताञ्जहोदि प्रेम विषमनुबद्धान्ति चैर्वै विश्वानरस्याश्रावयत्यपाकुंशु मारुताञ्जहोदितस्माद्रां विषमधिपदति मारुता भवन्ति मरुतो देवानां विष देव नैवास्मि मनुष्ट विषमवरुन्धे सप्त भवन्ति सप्त गणाभि मरुतो कनश एव विषमवरुन्धे गणेन गणमनुभृत्यजुहो त्रिविषमेवास्मानुवत्मानम् करोति धारान् जहोदिवसो मेधारा सति दिवायेभूयते सुतस्य वागेन मेधाधारामुष्टन् लोकेन्वमानोपतिष्ठत आज्य न जहोदि तेजो वाज्यन्तेजो वसोर्धारा तेजसैवा स्मे तेजो वरुन्धे च कामावेवसोर्धारा कामा नैवावरुन्धेजम् कामयेत प्राणानस्यानाद्यम् विच्छिन्द्यामिति विग्राह न्तस्य तिहूयात् प्राणानेव्यङ्कामयज प्राणानस्यान्नाद्यकं सन्तनुयामिति सन्ततान्तस्य विहूयात् प्राणानैवास्यान्नाद्यकं सन्तनोदि द्वादश द्वादशान् जुहोदि द्वादश मासात्सरेणैव मा अन्नमवरुन्धेऽन्नञ्च मेक्षुच्च म इत्याहैतद्वा अन्नस्य रूपकं नैवान्नमवरुन्धे दृष्टमापश्चमय्याहैषावान्नश्च यो निश्चयोन्यैवान्नमवरुन्धेभ्येन्द्राणि जुहोरिदेवता एवावरुन्धे यत्सर्वै मध्यमीन्द्रः प्रतितस्मादिन्द्रदेवतानां भूयिष्ठवाक्रमगीन्द्रमुत्तरमाहेन्द्रियमेवास्मिन्नुपरिष्टादि यज्ञायुधानि जुहोतिज्ञो वैयज्ञा युधानि यज्ञमेवावरुन्धे एतद्वै यज्ञस्य रूपकं रूपेणैव यज्ञमवरुन्धे मृतश्च मेष्वगागारश्च मयित्याः स्वगाकृत्या मयित्या हैतद्वै ब्रह्मवर्चसस्य रूपकं रूपेणैव ब्रह्मवर्तसमवरुन्धर्च मे सामजमयुक्त्या हैतद्वै रूपेणैव पशो न वरुन्धे कल्पादै जयजो त्रिशु सरावते भवतो तिश्रष्टमयित्याः देव छन्दसंवार्येकाच तिश्रश्च मनुष्यछन्दसञ्चाष्टौ च देव छन्दसञ्च मनुष्यछन्दसञ्चावरुन्धा त्रयस्त्रिंशदायस्त्रिमुं षद्वै देवता देवता देवता रुन्ध अष्टाचत्वारिकम् शुः अष्टाचत्वारिकम् शदष्टरा जगते जागता जगत्येवास्तेभो नवरुन्ध आजश्च प्रथमश्च विद्वादशः रिद्वादशमासाः संवत्सरः संवत्सर एव प्रतिष्ठति च्छमानस्तम् देवा ब्रुवन्नुपनावर्तस्थाव्यजसो ब्रभे त्वम् वृणेभ्यमेव वाजप्रथमेयञ्जुहवण्डिधिलस्वादग्नये वाजप्रथमेयञ्जुक्पदेद्वाज प्रथमेयं जुहोत्तमेव लग्कथे येन अभिषेकदेवास्युहोध्राम्यावोढदय सप्तारण्या उभयेामवलुभ्या अन्नस्यान्नस्य जुहोत्यन्नस्यान्नस्यावलुभ्या औदुम्बरेण स्क्रुवेण जुहोत्योर्ग्वामुदुम्बरवोर्जन्नमोर्जैवा स्वावोर्जमन्नवरुन्धेवानामभिषक्तो धृपावर्ते धान्नाद्युपावर्तते न तोषा चेति कृष्णाजीश्वेतवत्सादि पयसाजुहो ने दुहाते राष्ट्रभृतजुहोरि राष्ट्रमेवा वसन्ते षड्भिर्जुहे मुखे पञ्चाहुदेवचिदकम्भवदे वातनामानिके पातः पवदैत्रेत्रयिमे लोकायेभ्य एव लोकेभ्यो वा तमवरुन्धे समुद्राधिनभस्मा नित्याहैरद्वैवातस्य रूपकं रूपेणैव वा तमवरुन्धेञ्जलिनाजुहो देष्ठे देशा मन्यसाहुतिरमकल्पते र्गाय मे लोकाय देव रथो युञ्यते यत्रा लोगाय मनुष्य रथये खलु मे देव रथोय लज्ञायनग्येवेनसकेन युक्तस्वर्गम् लोकमभिवह यत् सर्वाभिः पञ्चभियुञ्ज यज्ञो प्रच्युतस्यानप्रतिष्ठिताहृदयस्य न प्रतिष्ठिता सोमा प्रदष्ठिता यज्ञानि दृढादः स वने एवमेव प्रत्याहृतयस्तिष्ठन्ते प्रतिष्ठो वा प्रत्युत्थानि यज्ञायज्ञ द्वाभ्यामभिरुषत्येतावान् यज्ञो यावानज्ञम भूमा त्वा स्यादपूर्ध्वे यावानेवज्ञस्तमन्ततोवान् बारो हृद्वाभ्यां प्रतिष्ठत्याय त्यथाभिवृषत्तेन वादे तस्यानिष्टक आहुभिरमकल्पतेयां वागेष्टक आहुदिञ्जो विस्रवति वैसागस्रवन्ते यज्ञानपरा भवति यज्ञमाना यत् पुरचित्यञ्चनत आहुदेना प्रभित्यै प्रत्याहु यत् तिष्ठन्दिनयज्ञः पराभवदिनयजमानोऽष्टावपतसाक्षरा गायत्रे गायत्रे नैवेन छन्ददाद्वादशजागतेन छन्दोदेवेन चिनुतेन यत्पुनश्चिय एवं विद्वान् पुनश्चितं चिता एवं पुनश्चिया पुनराधेयमाधत्यत्वानर्ध्वोक्षिञ्चिनृय पुनक्षिञ्चिन चरध्याथ कल्वाह न चेतव्यद्रोवाय जगदग्न यथा व्याघ्रकं सप्तं बोधयति तादृगेव तथ कल्वाहुश्चेतव्ये यथावधेयानुकधेयेन बोधयति तादृगेव तन्मनुरग्निवचिरुतेन पुनश्चितिमपश्यत्तामजनृतया वेसात्पुनश्चितिम् च नद्य न्दिदम् जिन्वेदपशुकामः पशुपवे नेद सुवर्गकामस्य नो वे वयसाम् प्रतिष्ठश्च न एव भूत्वा सुवर्गम् लोकम् पदतिकम् कथितम् जन्वेदयः कामय ऋषेरुषण्वा नमुष्पण्लोके स्यामि ऋषेरुषण्वा नेवामुष्पण्लोके भवत्य चितं जन्वेदस्येदम् प्रतिष्ठा कामश्चदश्वादृषा चेत् प्रवगचितन् वेदभ्रातव्यभान् प्रेमभ्रातरव्यान् नुदौ भगतः प्रवृ कञ्चिन् वेदयः कामयाद प्रजातान् नुदय प्रति जनश्यमान् भादरुयान् नुदत प्रतिजनश्यमान् रथ च क्रचिदं चिन् वेदभ्रातव्यभान् वज्र वेदथो वज्रमेव भ्रातव्य रुन्ध्यमोन्वेद पशुकामः भवति श्मशानेदयः कामयेत पुरुद्रियामिकरे विश्वामित्रीता पुंसयेतार्विहव्यामस्य धत्तताभिै समतिष्ठस्येन्द्रियं वेर्य मवृङ्कयद्विहव्यावपदधादेन्द्रियमेवताभिर्भेर्यं यजमानाभ्यादुर्व्यस्य वृङ्के होतभिष्टियं यजमानायतनं मे होतास्पदेवास्मायैन्द्रियं वैर्यमवरुन्धे द्वादशोपदधाति द्वादशाक्षरायजागराः पशवो जगत्यैवास्मे पशोनवरुन्धे अष्टावष्टावन्येषु धित्रयेषोपदधात्यष्टाशभाः पशवः पशो नैवावरुन्धे षण्मार्जालीये षड्वा रतवरतवृपे देवापितुरतो नैव देवान्त्रे क्रीणामि वाजसाधीत्य नष्टप्रतिबद्धवति तिश्र नष्टुभश्चलश्लोगायत्रि यो यत् तिष्व नष्टुभस्तस्मादश्वस्तिष्ठति यच्छलश्लोगायत्रि यत्तस्मात्सर्वागश्चतुरः परः प्रयुगत्पलायते परमा येशा छन्दसाञनष्ट परमश्चतुष्टोमस्तोमानाम् परमस्त्रिरात्रो यज्ञानाम् परमश्व पशूनाम् परमेणैवे यस्मिन् आलभ्यते द्वादशमासास्पन्दवस्त्रय इमे लोकाअाधित्यैक विपुंसकेधः प्रजाभयप्राजापत्यश्वस्तमेव साक्षादुर्ध्यषक्वरयः पृष्टं भवन्तोन्य आलभ्यन्तग्राम्यामुदेवारण्यायक्षक्वरय पृष्ठ त्यश्वस्तिपायपाचरं ब्रह्मकामं भवति रश्मिनाभायतये स्वरो वा याचुरश्वमं भवत्यश्वस्त्ययत्ते धृत्ये सङ्कृत्यच्छावाकसामं भवत्यच्छन्नयज्ञो वाय रजदष्टमेत्यादि सर्वो वा त्यक्षावाकसामम् भवत्यश्वस्य सर्वत्वाय भर्यानन्दकार्याय सर्वस्त्वमो दि भात्र उत्तममहद्भवति सर्वस्याप्ते सर्वस्य चित्ते सर्वमेव ते नाप्नोति सर्वञ्जयति ओ यदेकेन सर्गस्थापयति यज्ञः स्वन्तत्या पुष्कदागतेः सन्ताग्निभ्यः आरभ्यन्ते देवताभ्यं दधा ज्ञेयेष्टुभो या कुर्या ज्ञेयेस्तेना ज्ञेयाय तृष्टु हस्तेन इन्द्रः समर्थेन देवताभ्य समदन् दधादि वायवैपतेतो परमालभते तेजो वायुश्च आलभ्यते तस्माद् वायुर्वादितद्रियङ्घहरिष्वमेव स्यानुन्माद्भ्ये नियत्व च भवनुन्मादाय वायमते भवदस्तय हिरण्यगर्भसमवर्तताग्रहीत्याघारमाधारे प्रजाप सर्वे हिरण्यगर्भः परस्तदश्वानाङ्गर्गभाङ्ग्यायवसभाङ्गरजस्तरजानाम् वायुर्वे पशूनाम् प्रियन्धामयद्वायज्ञा भवेतमेवेनमभिसञ्जाना पदवपुपतिष्ठन् दैवायव्यः कार्या <laughs> जाद्वायव्यम् कुर्यात् प्रजापुरे याद्य प्राजापत्यम् कुर्यात् प्रागौर्याद्यद्वायव्यः प्रशुर्भवति तेन वायान्नैजयत्प्राजापत्यः पुराणाश भवति तेन प्रजापतेर्नैजयद्वादशगपालस्तेन वेश्वानलान्नैत्या गावेष्टवमेकादशगपालं जन्मपति शिष्यमानोऽः सर्वा देवता विष्णुर्यज्ञो देवता ेव यज्ञञ्चारवमो देवतारमो यदा वैष्णवमेकाशिकपालं निर्लवति देवता देवो भयर मानो वरुन्धे पुरोडा च नोकार्ध्वं चरुणात्मयः कामये दामुष्मिन् लोकरुध्वे पुरोडाशङ्कुरुवेदामुष्मिन्नेव लोकरुध्वाहस्य Yeah. बालस्तेन वैष्णवस्समध्येयः कामये दास्पन्नस्मिन्नेव नौकरध्रान्त्यां वा प्रतिष्ठत्यन्त छेवानरं द्वादुश पारं वनस्या वा अर्ग्रे स्वानरो यथा संवत्सरभात्वा कालायते विचारत एवमेव संवत्सरभात्वा कालागते अग्निञ्चनृदयनार्तिमाञ्छेना वा अग्ने प्रियागमो यद्वै श्वानरः प्रियामेवास्य तनुभमवन्त ीन् नेतानि हे गो चान् यत्र हि मे लोकाय लोकानागुरोहाय